उन्नूति एशकं प्रमतम् उलम् मदली उडाना नमस्कार स्लोकं इ यस्मि यदत् विभोतां यद इदमभवत् येन चेतं ययेतत् योऽस्मादोत्तीर्णरूपग खलु सकलमिदं भासिता यस्य वासा यो वाचां धोरधोरे पुनर्विमनसां यस्य देवा मुनेन्द्रग नो वेत्यस्तत्वरोप किमु पुनरपरे मे नमस्ते गुरुवायुरप्पाशरणं जन्मानो कर्म नामस्फुटमिक गुणदोषादिकं वानयस्मिन् लोकानामोदयेयक स्वयमनुभजते तानि मायानुसारे विप्रत्यक्तेररूपोऽपि च बहुतररूपो भवत्यद्भुदात्मा तस्मै कैवल्यदाम्ने परस परिपूर्णाय वैष्णो नमस्ते गुर्वाैरप्पाचरणम् नो देभ्यञ्चं न मध्यं न च सुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कन्म जातिं गुणमभि सदसद्वाभिते परमसुखमयं भाते तस्मै नमस्ते कुर्वाैरप्पा शरणं मायायां बिम्बिधस्त्वं सृजसे महदकङ्कार तन्मात्रभेदे बोधग्रामेन्द्रिया कैकै अभि सकल जगत् स्वप्नसङ्कल्पकल्पं भूयः संकृत्य सद्वा कमड इव पदानात्मना पालशक्या जायमाने तमसि विधि मेरो भासे तस्मे नमस्ते कुर्वाैरप्पाचरणं शब्दब्रह्मेधिकन्मेत्यनुहृदि भगवन् कालयेत्यालपन्ते त्वामेकं विश्वकेता सकलमयदया सर्वथा कल्प्यमानम् वेदान्तै यत्त्व गीता पुरुषपरचितात्मापितं तत्तु दत्तो प्रेक्षा मात्रेण मूल प्रकृति विकृति कृद कृष्णदास्मै नमस्ते गुर्वाैरप्पा शरणम् सत्त्वेन सत्दयो वा न च खलु सदा सत्त्वेन निर्वाचरोपा दते यासा वैज्ञा गुणपाणिमधिमदे विश्वदृश्य वसा विद्या त्वं सैव यात श्रुतिवचनलमैः यत्कृपा स्यलापे संसारण्यसद्यः त्रिडनपरशुदामेते तस्मै नमस्ते कुर्वाैरप्पायशरणं दोषासु स्वर्णबद्ध्वा जगति कडचराबाधिके मृत्तिकौ वदे तत् मे सञ्चयतमाने पुरदे ददुतो नाप्यत्यते चभोस्ते स्वप्नद्रष्टप्रभोते तिमिरलयमितो जीर्णरज्जोच यद्वते वेद्यालापे तदैव स्फुटमभि विकसेद पृष्ट तस्मै नमस्ते गुरुवायुरप्पौ शरणं यद्भिो देति दे सोऽ दगधि च दघना वादि वा योस्ततान्ये यद्भिता पद्मजात्या का पुनरुचितबलिन् आगरन्ते नु कालो येनैवारोपिताभ्राङ् निजपदमपि ते शापितारश्च पश्चात् तस्मै विश्वं नियन्त्रे कृष्णकौर्णप्रणाम गुरुवारप्पशरणं त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्रक्षरस्यैकवाचं त्रेशानामैक्यरूपं त्रिभिरविनिगमैके दीयमानस्वरूपं त्रिस्रोभस्ताविदन्ता त्रियुगजनिजुषं त्रिक्रमाक्रान्दविश्व त्रयः काल्ये भेदये Hey, no, no. त्रिभिरगमनिषं योगभेदै भजेतां गुरुवैरप्पाचरणं सत्यं शुद्धं विभुक्तं जयदि तव वपुको नित्यमुक्तं निरेकं निर्बन्तं निर्विकारं निखिलगुणगणं व्यजनाधारभूतं निर्मूलं निर्मलं तन्निरवल्लासि निर्लीनमन्त निसङ्कानां मुनीनां निरुपम परमानन्दशान्त्र प्रकाशं गुरुवैरप्प शरणं द्वारं द्वादशरं त्रिषद परिमिलच्छष्टिपद्वापि वेदौ सम्भ्राम्य क्रोरवेकौ क्षणमनुजगदा चित्यसन्धवमानौ चक्रं ते कालरूपं व्यथयतु न तु मां विष्णो कारुण्यसिन्धोः पवनपुरपते पाहि सर्वमयौकाध गुर्वाैरप्पाशरणं यत् त्रैलोक्यरूपा तदपि च ततो निर्गदो नन्दशुद्धं ज्ञानात्मा वर्तसेत्मा तव खलु महिमा सोभितावान् किमन्यदे तो ौघस्ते बागये बाखिलभुवनदया पृश्यदे क्रं च कल्प को यष्टं सान्त्रमोदात् मघमुपरि ततोपाधि तस्मै नमस्ते कुर्वैरप्प शरणम् अव्यक्तं ते स्वरूपा तुरदिकमथमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्ये दधेव स्फुटमृतरसाम्बोधि खल्लो लतुल्यं सर्वोत्रेष्ठामीष्ठां तदिकगुणरसे नैव चित्तं हरन्ति मूर्तिं ते संश्रये को पवनपुरभते पायि मां सर्वलोकाद् गुरुवाैरप्पाचरणं सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द दशकं वैकुण्डलोकते वेदल् विष्णोर्बिज्ञाने त्रिजगदभिमिदं मोदते पूर्णसम्पद् योऽसौ विश्वानि दत्ते प्रियमिक परमं तामथस्याभिया त्वद्भक्ता यत्र मात्यन्तं मृधर समरं तस्य यत्र प्रवखक आध्यायशेषकर्त्रे प्रदिनिमिषन विनाय भर्त्रे विपुते भक्ता आत्मा, विष्णवेयक प्रदिशति हविरादिने यज्ञार्चनाद कृष्णाद्यं जन्मयो वा महदिगमहतो वर्णये सोऽयमेव प्रेतपूर्णो यशोभिः त्वरिदमभिसरेत प्राप्यमन्ते पदं ते हे स्तोदारकवित्रा का त्वमिद कलयता चेदयत्मे तदैव व्यक्तं वेदस्य सारो प्रणुवदजनोपातलीलकथाभिः जानन्दश्चास्य नामान्य किल सुखकरोणे के संकीर्तयद्मो ये विष्णो कीर्तनाक्यैके तव खलु मगधग तत्त्वबोधं भजेयौ कृष्णोकर्माणि सम्पश्यत मनसि सदा यै सदन्मानबन्तात् मानेन्द्रस्यैष भृत्य प्रियसगैव च व्यादन क्षेमकारे ईषन्ते योगसिद्धाका परबदमनिष यस्य सम्यक् प्रकाश प्रेन्द्र जागरोका कृदभुनुदयो यच्च निर्भासयन्ते न जातो जायमानोऽपि च समधिगतस्त्वं नयिं नो बसानो देवश्रेयांसि विद्वान् प्रदिमुकुरभिते नाम तं त्वां नानाविदनुदि चनैः अस्य लोकत्रयस्याभ्यो त्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके आभसृक्ष्यादिज्याका प्रथममयि विभो गद्भदेशे ददुस्त्वां यत्र त्वय्ये जलाशयनगरे सङ्गता वैक्यमापन् तस्याजस्य प्रबोधे विनिखितमभवत् पद्ममेकं किनाभो दिग्भद्रं यत्के लोकको कनकधरुणि भृत्कर्णिका लोकरोपौ हे लोका विष्णुरे दद्भुवनमजनयत् तन्न जानीतयो योऽष्माकं क्यन्दरस्तु किमपि तदपरं विद्यते विष्णुरूपं निहारप्रक्षमाया परिवृत मनसो मोगिता नामरूपै प्राणप्रीत्यैकदृप्पाका चरदमकपराका कन्दने च मुकुन्ते मोत्नामक्ष्णां पदानां भगसि खलु सहस्राणि सम्बोध्य विष्णो तत्प्रोत्क्रम्याभि तिष्ठन् परिमिद विवरे वासि चित्ताम् दरेऽपि बोधौ भव्यं च सर्वा परपुरुषभवान् किञ्चदेकेन्द्रिया दिष्ट्वाविष्टा ह्युद्गदत्वात् अमृतसुखरसं चानुभुङ्क्षे त्वमेव यत्तो त्रैलोक्यरूपा तदपि थो निगदो नन्दशुद्ध ज्ञानात्मा वर्तसे त्वव खलु महिमा सोपितावान् किमन्यद् सौगस्ते भागये वाखिलभुवनदया त्रिश्यदे त्र्यं च कल्पो पो येष्टा सान्द्रमोदात्मकमुपरि तस्मै नमस्ते अव्यक्तं ते स्वरूपा तुदिकमतम तत् शुद्धैकसद्भ पुटममृतरसां बोधिकल्लोलतुल्यो सर्वोत्कृष्टामभीष्टां दधि गुणरसेन नैव चित्तं करन्ते मूर्तिं ते संश्रयेक पवनपुरपते भगि मां सर्वरोकादे सर्वत्र गोविन्दनोमसंकीर्तनं गोविंदा गोविन्द दशकं नम्बूद्रि ए वैकुण्डं कापदो निबिडाव <laughs> लोबनीया पेयोषा प्लापितो दधनु दधु धरे दिव्यकै चोरवेषो तारुण्यारम्बरम्या परमसुगरसास् वाधरोमाञ्चिताङ्गै के आवेता नारदात्यैके विलसदुपनिषत् सुन्दरे मण्डलै च लीलाभम कुञ्जिदाक्रम घनमलधरं संयतं चारुभङ्ग्या रत्नो तं सारामोहा वलयदमुदयचन्द्रके पिञ्चजालैः मन्दारश्रिवेता तव बृदगभरे भारम् आलोक ये को स्वे अभि च सुललितां पालपालेन्तु मे धीं प्रध्यं पोर्णानकम्भार्णवमृदुलकरे चञ्चलब्रो विलसे हे आनील स्मिक्तपक्ष्मा वळे परिलसितं नेत्रयोग्म विपोधे सान्द्रचाया विशालारुण कमलदलाकारमामोक्तदा रा करुण्या लोकलीला शिशिरत भुवनं क्षिप्यधाम मयनाते पोत्तुला सिना समा हरिमणि मुहूर्त् प्रोलसल् कण्डपाले यालोलत् कण्डप सा मगरमणि कुण्डलदे प्रो ओन्मेलपङ्क्ते स्फुरतरुणधरचाय बिम्ब प्रश्यन्ति मन्तस्मिदमधुरतरं वक्त्रमुद्भासतां मे भागोद्मन्त्रेन रत्नोज्ज्वलबलय वृथा चोणबाणि प्रवाले नो भातां प्रसृदनगमयो काङ्गुले शङ्कचारां कृत्वा वक्त्रारणुदे सुमधुरविगसत्रागमुद्भाव्यमानैके शब्दब्रह्मा मृदय स्व शिशिरिद भुवनैके चिञ्च चिंचमे पर्णभीतिम् बुत्सद्बत् कौस्तुभ्ये तदिभिरुणिता कोमलं कण्डदेशो वक्ष श्री वत्सरं यो तरलदरसमुक्तिप्रकारप्रधानो नानाबण्णप्रसूनाबले लयनीं पन्यमालां विलोलल्लो लम्बां लम्बमाना पुरसिदव तथा भावये रत्नमालां भङ्गे पञ्चाङ्करा गैके अतिशयविकसत् सौरभाकृष्ठलोकं लीनाने कर्तृलोके विदधिमभिदृशां विप्रदो मध्यवल्ल lay yeah. चक्रास्मन्यस्तप्दोज्ज्वलघनघनिमा पीदचेलं ददानं द्यायामो दीप्तरश्मि पुडमणिरचना किङ्गिणी पण्डितं त्वां वोरो चारो तवोरोम शृणरुचो चित्तचोरो रमाया का विश्वक्षोपं विशङ्क्य ध्रुवमनिशमुभो पीदचेलभृदा आनम्राणां पुरस्तादे न्यसनधृत समस्तार्तपली समुत्कचाया जानोद्वयं च प्रमप्रतुलमनोज्ञे च जङ्गे निषेपे मञ्जेरा मञ्जनादेके इव पदभजन श्रेयये कालपन्थ पदाग्रा प्रान्दिमञ्जत्प्रणदजनमनो मन्दरो तर कोर्म उत्तम्रराजन्नकर हिमकर ज्योत्सया चाश्रितानां सन्द बान्तघे दधिमनुकलये मङ्गला अङ्गुलीनां योगेन्द्राणां त्वदङ्गेष्पदिकसुमधुरं मुक्तिभाजां निवास भक्तानां कामभक्षत्युदरुकिसलयं नादते पदमूलो नित्या चित्तस्थितं मे पवनपुरपते कृष्णा कारुण्यसिन्धो कृत्वा निशेषतापान् प्रदिशतो परमानन्दसन्तोकलक्ष्मी अज्ञात्वा ते मगत्वा यदि गनिगतिता विश्वनादक्षमे ता सोऽस्र चैदसहस्रोत्तरम् अधिकतरं त्वत्प्रसादाय भूयात् त्वेधा नारायणीया श्रुतिष्ठुषजनुषास्तुत्यदा वर्णनेन स्वेता लीलावतारैः इदमिक कुरुताम् आयुरारोग्यसौख्यं सान्त्रानन्तापबोधा मगमनुपमिता पालदेशाभदेव्याम् निर्मोक्तं नित्यमुक्त निगमचदसघर्षेण निर्भास्यमातनो अस्पष्टं दृष्टमात्रे पुनरुपुरुषात्तात्मकं ब्रह्म दत्म तथा बमादि साक्षात् गुरुपवनपुरे अन्धभाग्यं जनाया सर्वत्र गोविन्द नाम सङ्गीर्तनं श्री गोविन्द गो श्रीनरसिंहमङ्गलम् मङ्गलं स्तम्भडिम्बाय मङ्गलं मृत्यं मृत्यमे मङ्गलं रौद्ररूपाय नरसिंहाय मङ्गलं हिरण्यकशिभुं गत्वा दैत्येन्द्रं देवकण्टकं जगद्रक्षणधोत्याय जगद्बीजाय मङ्गलं प्रह्लादस्तुतिसन्तुष्ट प्रसन्न निजमूर्धये वरदाभयहस्ताय वरदाय च मङ्गलं करु घ्रै वज्रसंस्पृष्टे नखरै शत्रुधारिणे तेष्णदंष्टाय दन्वाय दाक्षवाकाय मङ्गलं नरकण्ठेरवाकाय व्यक्ताद्ग्रविपोतये मृगेन्द्राय नरेन्द्राय दैवकेन्द्राय मङ्गलं किरीटकारकेयोर कुण्ठलालङ्कृताय च कोडिशौर्यप्रकाशाय देवसिंहाय मङ्गलं त्रियुकाय त्रिभृष्टाय त्रिकोणाय त्रिमूर्तये नरकेशरिरूपाय लक्ष्मीलोलाय मङ्गलं मत्स्य कच्छपवाराक रामवामनमोक्तये रामकृष्णात्मने बौध कल्के सिंहाय मङ्गलं सर्वबीजा य सत्याय सर्वाधिष्ठानमूर्तये सर्वेश्वराय सर्वस्मै सर्वसिंहाय मङ्गलं नमामि नारायण पादपङ्कजं करोमि नारायण भोजनं सतां वतामि नारायण नाम स्वरामि नारायण तत्त्वमव्ययो नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण सर्वे भवन्तसिनक सर्वे सन्तु निधामया का सर्वे पत्राणि पश्यन्तो मा कश्चिद्दुःखमेत् श्रीकृष्णगोविन्दकरे मुरारे श्रीनाथनारायण वासुदेव श्रीकृष्णगोविन्दकरे मुरारे श्रीनाथनारायणवासुदेव श्रीकृष्णगोविन्दहरे मुरारे श्रीनाथनारायण वासुदेव सर्वत्र गोविन्दनामसङ्गकीर्तनं गोविन्द गोविन्द कायेन वाचा मनसेन्द्रियैर्वा भुत्यात्मनाथ प्रकृते स्वभावात् करोमि यत् तत्सकलं परस्मै नारायणायेति समर्पयामि